सोऽर्जुनः कृतवीर्यस्य वरः पुत्रो भवद्युधि ससहस्रं सहस्राणाम् माहिष्मत्यामवर्धत पृथिवीमखिलाम् जित्वा द्वीपांश्चापि समुद्रिणः नभसीव ज्वलम् सूर्यः पुण्यैः कर्मभिरर्जुनः इन्द्रद्वीपम् कशेरुम् च ताम्रद्वीपम् गभस्तिमत् गान्धर्वम् वारुणम् सौम्याक्षमिति च प्रभुः पूर्वैरजितपूर्वांश्च द्वीपानजयदर्जुनः सौवर्णम् सर्वमप्यासीत् विमानवरमुत्तमम् चतुर्धाव्यभजद्राष्ट्रम् तद्विभज्यान्वपालयत् एकांशेनाहरत् सेनामेकांशेनावसद्गृहान् यस्तु तस्य तृतीयांशो राजासीज्जनसङ्ग्रहे आप्तः परमकल्याणस्तेन यज्ञानकल्पयत् ये दस्यवो ग्रामचरा अरण्ये च वसन्ति चतुर्थेन च सोंशेन तान् सर्वान् प्रत्यषेधयत्